अथैको नाशीतितमः सर्गः निर्गतम् मकराक्षम्ते दृष्ट्वा वानरपुङ्गवाः आप्लुत्यसहसा सर्वे योद्धुकामा व्यवस्थिताः ततः प्रवृत्तम् सुमहत्तद्युद्धम् लोमहर्षणम् निषाचरैः प्लवङ्गानाम् वृक्षशूलनिपातैश्च गदा अन्योन्यम् मर्दयन्ति तदा कपि निशाचराः निशाचराः पट्टिशैर्भिन्दिपालैश्च बाणपातैः समम् ततः पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा कदनम् कपि सिंहानाम् चकृस्तेरजनीचराः बाणौघैरर्दिताश्चापि वानराः सम्भ्रान्तमनसः सर्वे दुद्रुगुर्भयपीडिताः तान् दृष्ट्वा राक्षसाः सर्वे द्रममाणान्मनोकसः ने दुस्ते सिंहवद्रप्ता राक्षसा जितकाशिनः ततः रामस्तान् वारयामास वारितान् राक्षसाम् दृष्ट्वा मकराक्षो निशाचरः कोपानलसमाविष्टो वचनम् चेदमब्रवीत् तिष्ठ राममया सार्धम् द्वन्द्वयुद्धम् भविष्यति त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः यत्तदादण्डकारण्ये हतवान् मम तदग्रतः स्वकर्मस्थम् स्मृत्वा दह्यन्ते भृशमङ्गाणि दुरात्मन्मम राघव यन्मयासि न तस्मिन् काले महावने दिष्ट्यासि दर्शनम् राममत्वम् प्राप्तवानिह काङ्क्षितो सिक्षुधार्तस्य सिंहस्येवेतरो मृगः अद्य मद्बाणवेगेन प्रेतराड्विषयम् गतः ये त्वया निहताः शूराः सहतैश्च वशिष्यसि बहुनात्र किमुक्तेन शृणु रामवचो मम पश्यन्तु सकलालोकास्त्वाम् माम् चैवणाजिरे अस्त्रैर्वागतया वापि येन वा राम तेन वामृधम् मकराक्षवच रामो दशरथात्मजः अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् कत्थसे किम् वृथा रक्षो बहून्यसदृशानि ते नरणे शक्यते जेतुम् विना युद्धेन वाग्बलात् चतुर्दशसहस्राणि रक्षसान्त्वत्पिता च यः त्रिशिरादूषणश्चापि दण्डके निहतो मया स्वाशिताश्चापि मांसेन गृध्रगोमायुवायसाः भविष्यन्त्यद्य वैपापतीक्ष्णतुण्डनखाङ्कुशाः राघवेणैव मुक्तस्तु मकराक्षो महाबलः बाणौघानमुचत्तस्मै राघवायरणाजिरे ताञ्छराञ्छरवर्षेण रामश्चिच्छेदनैकधा निपेतुर्भुविच्छिन्ना रुक्मपुङ्खाः सहस्रशः तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा खर राक्षसपुत्रस्य सूनोर्दशरथस्य च जीमूतयोरिवाकाशे शब्दो ज्यातलयोरिव धनुर्मुक्तस्वनोऽन्योन्यम् श्रूयते चरणाजिरे देवदानवगन्धर्वाः किन्नराश्च महोरगाः अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् विद्धमन्योन्यगात्रेषु द्विगुणम् वर्धते बलम् कृतप्रतिकृतान्योन्यम् कुरुताम् तौरणाजिरे राममुक्तांस्तु बाणोघान् राक्षसस्त्वच्छिनद्रणे रक्षोमुक्तांस्तु रामो वैनैकधा प्राच्छिनच्छरैः बाणोघवितताः सर्वा दिशश्च प्रदिशस्तथा सञ्छन्नावसुधा चैव समन्तान्न प्रकाशते ततः क्रुद्धो महाबाहुर्धनश्चिच्छेदसंयुगे अष्टाभिरथ नाराचैः सूतम् विव्याधराघवः भित्त्वा रथम् शरैरामो हत्वा अश्वानपातयत् विरथो वसुधा निशाचरः तत्तिष्ठद्वसुधाम् रक्षः जग्राहपाणिना त्रासनम् सर्वभूतानाम् युगान्ताग्निसमप्रभम् दुरवापम् महच्छूलम् रुद्रदत्तम् भयङ्करम् जाज्वल्यमानमाकाशे संहारास्त्रमिवा परम् यम् दृष्ट्वा देवताः सर्वा भयार्ता विद्रुता दिशः विभ्राम्य च महच्छूलम् प्रज्वलन्तम् निशाचरः स क्रोधात् प्राहिणोत्तस्मै राघवाय महाहवे तमापतन्तम् ज्वलितम् खर पुत्रकराच्युतम् बाणैश्चतुर्भिराकाशे शूलम् चिच्छेदराघवः सभिन्न नैकूलो दिव्यटकमंडिता यशीर्यतम हो राणादि भुवि तूलम निहत्वा क्लिष्टक साधु साध् भूताह तोगता तम दृष्ट्वा निहतम शूलम मक्राक्षो निशाचर मुष्टि मुदम्य काकुत्थे चाब्रवीत सतम् दृष्ट्वा पतम् तम् तु प्रहस्य रघुनन्दनः पावकास्त्रम् ततो रामः सन्दधेतुशरासने तेनास्त्रेण हतम् रक्षः काकुत्स्थेन तदारणे सञ्छिन्नहृदयम् तत्र पपात च ममार चा। दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् लङ्कामेव प्रधावन्त रामबाणभयार्दिताः दशरथ नृपसोऽनु बाणवेगैरजनिचरम् निहतम् खरात्मजन्तम् प्रददृशु रथ देवताः प्रहृष्टा गिरिमिव वज्रहतम् यथा इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे एकोनाशीतितमः सर्गः